ताम् दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः स्यन्दते किम् त्वयम् नाद्यसरित् श्रेष्ठा ततो निमित्तमन्विच्छन् ददर्शसमहामनाः कुमारम् रूपसम्पन्नम् बृहन्तम् चारुदर्शनम् दिव्यमस्त्रम् विकुर्वाणम् यथा कृत्स्नाम् गङ्गाम् समावृत्य शरैस्तीक्ष्णैरवस्थितम् ताम् शरैराचिताम् दृष्ट्वा नदीम् गङ्गाम् तदन्तिके अभवद्विस्मितो राजा दृष्ट्वा कर्मातिमानुषम् जातमात्रम् पुरा दृष्ट्वा तम् पुत्रम् शान्तनुस्तदा नोपलेभे स्मृतिम् धीमानभिज्ञातुम् तमात्मजम् स तु तम् पितरम् दृष्ट्वा मोहयामास मायया सम्मोह्यतु ततः क्षिप्रम् तत्रैवान्तरधीयत तदद्भुतम् ततो दृष्ट्वा तत्र राजा सशान्तनोः शङ्कमानः सुतम् गङ्गामब्रवीद्दर्शयेतिह दर्शयामास तम् गङ्गा बिभ्रतीरूपमुत्तमम् गृहीत्वा दक्षिणे पाणौ तम् कुमारमलङ्कृतम् अलङ्कृतामाभरणैर्विरजोऽम्बरसम्भृताम् दृष्टपूर्वामपि सताम् नाभ्यजानात् सशान्तनुः गङ्गोवाच यम् पुत्रमष्टमम् राजंस्त्वम् पुरामय्यविन्दथा स चायम् पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः गृहाणेमम् महाराजमया संवर्धितम् सुतम् आदाय आदायपुरुषव्याघ्रनयस्वैनम् गृहम् विभो वेदानधिजगे साङ्गान्वसिष्ठादेशवीर्यवान् कृतास्त्रः परमेश्वासो देवराजसमो युधि सुराणाम् सम्मतो नित्यमसुराणाम् च भारत उशनावेद यच्छास्त्रमयं तद्वेद सर्वशः तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः यद्वेदशास्त्रम् तच्चापि कृत्स्नमस्मिन् प्रतिष्ठितम् तव पुत्रे महाबाहौ साङ्गोपाङ्गम् महात्मनि ऋषिः परैरनाधृष्योर्जामदज्ञः प्रतापवान् यदस्त्रम् वेद रामश्च तदेतस्मिन् प्रतिष्ठितम् महेश्वासमिमम् राजन् राजधर्मार्थकोविदम् मया दत्तम् निजम् पुत्रम् वीरम् वीरगृहम् नय वैशम्पायन उवाच इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत तयैवम् समनुज्ञातः पुत्रमादाय शान्तनुः भ्राजमानम् यथादित्यमाययौ स्वपुरम् प्रति पौरवस्तु गत्वा पुरन्दरपुरोपमाम् सर्वकामसमृद्धार्थम् मेनेसोत्मानमात्मना पौरवेषु ततः पुत्रम् राज्यार्थमभयप्रदम् गुणवन्तम् महात्मानम् यौवराज्येभ्य सेचयत् पौरवाञ्छान्तनोः पुत्रः पितरम् च महायशाः राष्ट्रम् च भरतर्षभ स तथा महीपतिः वर्तया मास वर्षाणि चत्वार्यमितविक्रमः स कदाचिद्वनम् यातो यमुनामभितो नदीम् महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् तस्य प्रभवमन्विच्छन् विचचारसमन्ततः स ददर्श तदा कन्याम् दाशानाम् देवरूपिणीम् तामपृच्छत् स दृष्ट्वैव कन्यामसितलोचनाम् क्यमसी का चासी किचिर्ष्रवीद दाशकन्यास्र्मा हेतरी पितर्नगाद्रम ते दाशराज महात्मुगंधस्ता संयुक्ता देवूपिणी समीक्ष्य राज दाशेय कामयास शातनु स गत्वा पितरम् तस्या वरयामासताम् तदा पर्यपृच्छत्ततस्तस्याः पितरम् सोत्मकारणात् स चतम् प्रत्युवाचेदम् दाशराजो महीपतिम् जातमात्रैव मे देया वरवर्णिनी वरा हृदि कामस्तु मे कश्चित्तम् निबोधजनेश्वर यदी माम् धर्मपत्नीम् त्वं मत्तः प्रार्थयसे नघ सत्यवागसि सत्येन समयं कुरु समयेन प्रदद्याम् ते कन्यामहमिमाम् नृप न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति